श्रीहर्ये नमः अत त्रयोविंशोऽध्यायः श्रीशुक उवाच अनूसपा नरश्च शू परोक्षश्च त्रयःसुतः तपनरात्कला नरं सृञ्जयस्तत्सुतस्ततः जनमे जयस्तस्य पुत्रो महाशीलो महामनाः उसीनरस्थितिषुश्च महामनस आत्मजौ सिभिर्वनसमिर्धक्ष सच्चत्वारोऽसि नरात्मजाः वृषादर्प सुवीरच्छ शिवेश्चत्वारये वासं स्थितीशोऽसद्रतः ततो हे माता सुतप बलिस्सुतपसो भवत् अङ्गभङ्गकलिङ्गाद्य सूक्ष्मपुण्ड्रान्ध्रसंज्ञिताः जग्गिरे दीर्घतमसो भले क्षेत्रे महीक्षितः चक्रुस्वनाम्ना विषयान् षडिमान् प्राचकांश्च ते कनपानो गतो जज्ञे तस्माद्दिविरतस्ततः सुतो धर्मरथो यस्य जज्ञे चित्ररथो व्रजाः रोमबाध तस्मै दशरथः सखां शान्तां स्वकन्यां प्रायश्चत् ऋष्यशृङ्क उवाहतां देवे वर्षति यं राम आनिन्योर्हरिणीसुतं नाट्यसङ्गीतवाधित्रैर्विभ्रमालिङ्गणार्हणैसतु राज्ञो यस्य निरूप्येष्ठितं मरुत्वतः प्रजामदाद्दसरतो येन लेभे प्रजा प्रजाः चतुरङ्गोरोमपाधात् पृथुलाक्षस्तु बृहद्रतो बृहत्कर्म बृहद् भानुश्च आद्याद् बृहन्मनास्तस्मत् जयद्रतभुताहृतः विजयस्तस्य सम्भूत्या ततो धृतिरजायत ततो धृतव्रतस्तस्य सत्कर्मादिरतस्ततः योऽसौ गङ्गातटे क्रीडन् मञ्चुषान्तर्गतं शिशुम् कुन्त्यापविद्धं कानिनं मनोपत्योकरोत्सुतं वृषसेनसुतस्तस्य कर्णस्य जगति पतेः दृह्योच तनयो बभ्रो सेतुस्तस्यात्मजस्ततः आरब्धस्तस्य गान्तारस्तस्य धर्मस्ततो धृतः धृतस्य दुर्मनास्तस्मात् प्रचेताः प्राचेत संसुसतं म्लेश्चाधिपतयो भूवन् उदीचीं दिशमाश्रिताः दुर्वसोश्च सुतो भग्नेर्मग्नेर्भार्गोतभानुमान् त्रिभानुस्ततस्तुतोस्यापि करन्दमवदारदीः मरुतस्तस्तुतो पुत्र पुत्रं पौरवम् अवभूद् दुष्यन्तस पुनर्भेजे स्ववंशं राज्यकामुकः यया तेज्येष्ठपुत्रस्य यधोर्वंशं न महापुण्यं सर्वपापहरं नृणा यदोर्वंशं नरश्रुत्वा सर्वपापैः प्रमुच्यते यत्रावतीर्णो भगवान् परमात्मानराकृतिः यदो सहस्रजित्क्रोष्ठा नलो चत्वारसूनवस्तत्र सदजित्प्रथमात्मजः महाहयो वेणुहयो कैहयश्चेति तत्सुताः धर्मस्तु कैहयसुतो नेत्रकुन्तेः पिता ततः सोऽहञ्चिरभवत्कुन्तेर्महिष्मान् भद्रसेनकः दुर्मदो भद्रसेनस्य दनककृतवीर्यसूः कृताग्निकृतवर्मा हृदौजादनकात्मजाः अर्जुन कृतवीर्यस्यं सप्तद्वीपेश्वरो भवन् दत्तात्रेयात्फरे रंशात् प्राप्तयोगमहागुणाः त नूनं कार्तवीर्यस्यं गतिं यास्यन्ति पार्थिवाः यज्ञता न तपो योग शतवीर्य जयादिभिः पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाह अनष्टवित्तः स्मरणो बुभुजेशय्यषड्वसु तस्य पुत्रसहस्रेषु पञ्चैवोर्वरितामृधे जयध्वजसूरसेनो वृषभो मधुरूर्जितः जयद्वजास्तालजङ्गस्तस्य पुत्रशतं त्वभूत् क्षत्रं यत्तालजङ्गाज्ञं मार्वतेजोपसंहृतं तेषां ज्येष्ठो वीतिहोत्रो वृष्णीपुत्रो मधु स्मृतः तस्य पुत्रशतं त्वासीत् वृष्णिजेष्ठं यतः कुलं माधवा वृषणयो राजन् यादवाश्चेति संयिताः चक्रोष्ठो पुत्रो वृजिनवांस्ततः स्वाहिस्ततो कुर्वै तस्य स सबिन्दुर्मयोगी महा महाभोजो महान् भूत् चतुर्दशमहारत्न चक्रव्रापराजितः तस्य पत्नीसहस्राणां दसानां सुमहायसा दशलक्षसहस्राणि पुत्राणां तास्वज्जीजन तेषां तु षत्प्रधानानां पृथुस्रवस आत्मजः धर्मो नामोऽसना तस्य हयमेतस तस्य याट् तत्सुतोरुचकस्तस्य पञ्चासन्नात्मजाशृणु पुरुजिक्मरुक्मेषु पृथुज्यामगसंज्ञिताः जामगस्त्वप्रजोप्यन्यां भार्यां सैभ्या पतिर्भयात् नाविन्दच्छत्रुभवनाद्भोज्यां कन्यामकारशीत् रतस्तां केयं कुहकमतानं रथमारोपितेति वै स्मयन्ती पथिमब्रवीत् अहं वन्द्या सपत्नी च स्नुषामि युज्यते कथं जनयिष्यसि यं राज्ञी तस्येयम् उपयुज्यते अन्वमोदन्त तत् विश्वे सैभ्या गर्भमदात्काले कुमारं सुशुभे शुभम् सभिदर्पयति प्रोक्त उपये मे स्नुषां सती इति श्रीमद्भागवते महापुराणे नवमस्कन्ते यदुवंसानुवर्णने त्रयोविंशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्दा गोविन्द सद्गुरुना महराज के जय